योपाम् पुष्पम् वेद पुष्पवान्प्रजावा अन्पशुपान्भवति चन्द्रभावा अपाम्बुष्पम् पुष्पवान्प्रजावा अन्पशुपान्भवति य एवम् वेद योऽपाभायतनम् वेद आयतनवान्भवति अग्निर्वा अपाभायतनम् आयतनवान्भवति यो ओग्नेराजतनम् वेद आयतनवान्भवति आपो वा अग्नेराजतनम् आयतनवान्भवति य एवम् वेद योपाभाजतनम् वेद आयतनवान्भवति वाजुर्वा अपाभाजतनम् आयतनवान्भवति यो वाजोरागतनम् वेद आगतनवान्भवति आपो वै वाजोरागतनम् आयतनवान्भवति य एवम् वेद यो पाभायतनम् वेद आगतनवान्भवति असौ वैतपन्नपायतनम् आयतनवान्भवति योऽमुष्यतपत आयतनम् वेद आगतनवान्भवति आपो वा अमुष्यतपत आयतनम् आयतनवान्भवति य एवम् वेद योऽपामायतनम् वेद आयतनवान्भवति चन्द्रमावा अपाभायतनम् आयतनवान्भवति यश्चन्द्रमस आयतनम् वेद आयतनवान्भवति आपो वै चन्द्रमस आयतनम् आयतनवान्भवति य एवम् वेद योऽपाभायतनम् वेद आयतनवान्भवति नक्षत्राणिपा अपाभायतनम् आयतनवान्भवति यो नक्षत्राणामायतनम् वेद आगतनवान्भवति आपो वै नक्षत्राणामायतनम् आयतनवान्भवति य एवम् वेद योपाभायतनम् वेद आयतनवान्भवति पर्जन्यो वा अपामायतनम् आयतनवान्भवति यः पर्जन्यस्यायतनम् वेद आयतनवान्भवति आपो वै पर्जन्यस्यायतनम् आयतनवान्भवति य एवम् वेद योऽपामायतनम् वेद आयतनवान्भवति संवत्सरो वा अपामायतनम् आयतनवान्भवति यः संवत्सरस्यायतनम् वेद आयतनवान्भवति आपो वै संवत्सरस्यायतनम् आयतनवान्भवति य एवम् वेद यो अप्सुनाभम् प्रतिष्ठिताम् वेद प्रत्येव तिष्ठति राजाधिराजाय साहिने नमो भयम् वै ईश्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् आमेश्वरो वै ईश्रवणो ददातु कुबेराजवै श्रवणाय जा। महाराजा जडमः यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलीनस्य जः ॐ शान्तिः शाण् शान्तिः